वाये अनायन्वाचो अब्रह्मना सा वाये वा तन्वृतानि पृथ्वीयेण ब्रह्माणा वावृधाना स्फुलीयेणामन्वतनामधेनोः पुत्रः पितरम् स मातरम् सोऽनुर्भोवत्स भोवत् पुनार्मदः सद्यामोऽर्णादन्तरिक्षम् स्वाहाश्रयिम् विश्वामभवत्सा भत् अह बाणम् पितरम् देवबन्धुम् मातुर्गर्भम् यैमै यज्ञम् मनसाचिकेतप्रणोऽवो अया अयाविष्ठा जनयम् कर्म निषहिणीरोर्वराय गातुः स प्रत्युतयेत् धरणम् मध्वाग्रम् स्वयातम् वा तन्वा मेलयत एका या च दशभिश्चाशोते द्वाग्भ्यामिष्टये विंशत्या चिषुभिश्च महास त्रिंशदा च युग्भर्वायैहता यज्ञेन यज्ञमायदन्तदेवास्तानि धर्माणि प्रसामान्यासन् रे हलाकम् महिमालः सदन्त यत्र योर्वे स देवानामधेपदर्पभो वसो अस्माशुद्रवेणमादधातु यद्देवादेवान्हविषाय चामत्यान्मनसामत्येन मले मलत्र परमेऽद्य मन् पश्येम तदुजितौ सूर्यस्य यत्पुदोषे न हविषा यज्ञम् देवा अथन्वत अस्थिनु तस्मादो हि यो यद्विहव्येतिरे मुग्धा देवा उदशुना यजन्तो जगोरङ्गैः पुरुधा यजन्त यै मै यज्ञम् मनसाजिकेतप्रणो वोतस्तमिहेहब्रवः अते चौरदे चिरन्तरिक्षमते चर्माता स पिता स पुत्रः विश्वे देवादेः पञ्च जनादे जर्जातमदे जर्जनि त्वम् हवामहे तु मेक्षत्र्यामतरम् दे मरोजेम् सुशर्माणा मदेजिम् सुप्रणेतिम् सुशर्मा िम् सुप्रणेजिम् प्रेमेम् नावम् स्वरिप्रामनागसोऽस्रावन्ते मारोहे मा वाजसनुप्रासवे मातरम् महेमदेजिर्नामव च सागदामहे यस्या उपस्था उर्वा आन्तरिक्षंसा नः शर्मत्रिवरोधन्न्यच्छात् पुत्राणाम तेदेलकादृशमवदेवानाम् रहामधर्मणा तेषाम् विधामगभिषक्षमुद्रियन्नैनाम् नमः सा परो अस्ति कश्चन भद्रादधिश्वेयः प्रे हि बृहत्पदि पुर एकाथे अस्तु अक्षेमस्या वरः पृथिव्यायेषु हे सर्वा वीरम् प्रपाचे पथावाचनिष्टभूषा प्रपाचेरिव प्रपाचे पृथिव्याः उभे अभिप्रियत मे धरस्थे आचपरा चलति प्रजालन् ओषेमाशा नो वेदसर्वाः स्वस्ति य आघ्रेणः सर्वा वेरोप्रायुच्छन् बुलये तु प्रजानन् ओशङ्कवौ व्रते वयम् न रश्येम कदाचन स्तोतारस्त्वह स्मासे परे पोषापरस्ताद्धस्तम् दधातु दक्षिणम् पुनर्णो नष्टमाजातुसन्नष्टेन गमेमहे नश्चे स्तनश्व च युर्यो मा योभोर्यः सुयः सु हवो यः सुत्राह येन विश्वापुष्य शिवार्याणि सरस्वतितमिहधातवेगः यश्चे पृथस्थनयत्तुर्योरश्वो देवः केतुर्विश्व मा भूषीदम् णावधेर्विद्युदादेव सस्यम् मोदवधेरश्मिभिः सूर्यस्य सभा च मासमेदिश्चावताम् प्रजापचेदृहितरो संविधाने येनाः सङ्गच्छ उपमासशिक्षाचारो वदामि पितरः सङ्गतेषु विद्व च सफे नाम ननिष्ठा नाम एते केच सभासदस्ते मे सन्तु सपादसः येषामहम् समासेनानाम् वक्त विज्ञानमाददे अस्याः सर्वस्याः संसदो मामिन्द्रभगिनम् कृणो यद्वो मनः पराः गतै र्तयामसि मये वारो रमताम् मनाः यथासूर्यो नक्षत्राणामुद्यम् स्त्रेयाम् श्यासदे ये वा स्त्रीणाम् च पुंसाम् च द्विषताम् वर्चासदे यावन्तो मासपद्नाः नामायन्तम् प्रदेश उद्यन् सूर्य इव सुप्ताणाम् द्विषदाम् वर्चाद अभित्यम् देवम् स वितारमोऽण्योक्तविक्रातुम् अर्चामि सत्यस वन्दत् तथामभिप्रियम् मतिम् ओद्भायस्यामदर्भाविद्युदर्सवे मने हिरण्यवाटरमिमेतसुकृदुःपृभा स्वाहा विर्हृदेव प्रथा माय वित्रे वर्ष्माणमस्मै वरिमाणमस्मै अथास्मभ्यम् च पितर्वार्याणि दिवो दि बासु बाभूरि पश्वः दमो न देवस्य पितावरेऽण्य तथद्रम् दाशम् सोमम् मम दलनमिष्ट परिज्ञा च क्रमदेवस्य धर्माणि त्वाम् सवितः सत्यसर्वाम् सुचत्रामाहम् व्रणसुमानिम् विश्ववाराम् रामस्य मन्बोदो हेनाम् द्राधाराम् महिशोभगाय बृहस्पदे सवेदलवर्धयैनम् नमः सौभागाय संशेदम् चित्सन्तरम् संशेषाधिविश्वायेन मनोमतम् देवाः घातादधातुनारयिमेषा ना जगातस्पतेः स नः अयम् देवस्य धीमहि सुमादिर्विश्वराधसः धाता विश्वा वार्यादधातु प्रजागाः मायदाशुषे दुरोणे तस्मै देवामृतम् सञ्जायन् विश्वे देवादेतिस्वजोषाः धाता रातिश्च विजयञ्जोषम् ताम् प्रजापादन्निधिपादन्नो अग्निः कष्टाविश्वप्रजयासंप्रदाणो यजामानाय द्रवेणम् दधातु प्रणाभस्त्वपृथिविभेन्द्रे एदम् दिव्यम्बभाः उत्नो दिव्यस्य नो धातदेशा नो विश्याकृतिम् रघ्रम्स्ततापदहिमो जाघान प्रणाभताम् पृथिवेशीरदा नः कश्चिदस्मे कृतमिच्छालन्त्रि यत्र सोमः सदामित्तत्रा भद्रम् प्रजापादिर्जनयति प्रजा अग्न्यश्चाहव्यवाहनो भवताम् दाशुषे मम अन्विदनुमते त्वम् मम्स शेषम् च नस्कृते युषस्वाहव्यमाहोदम् भजाम् देविरलास्वनः अनो मन्यतामनो मन्यमानः भजावन्दम् स्य वयम् हेदसिमापे भौम सुमृटेके अस्य सुमतौ यत्ते नाम सुलमम् सुप्रणीते नो मते अनो मतम् सुदानो तेनानो यज्ञम् बेब्रहे विश्ववारे रयिन्नाधेः सुभगे सुवीरम् हे मै यज्ञमनो मदर्जगाम सुक्षेत्रता यैषु ये वीरता येषु जातम् भद्राह्यस्यात्मयचर्पभो वसे मयज्ञमावतु देवगोपा अनो मतः सर्वमिदम्ब भो वयत्तिष्ठति चरति यदो च विश्वमेजति अस्याश्रे देवि सुमादौ स्यामानोमते अनुहिमम् सेनः समेत विश्वे वचतिम् दिवयेको विभोरतिर्जनानाम् सपोर्व्यो नो च न मामिनाः सत्तम् वर्तमि नो वाृतये गामित्पुरो अयम् सहस्रमानो दृशगवीनाम् मतिर्ज्योतिर्विधर्मणि वर्धः समे चेरुषसः समेरयन् हरेपसः स ौष्वम् दौज्ये वित्यम् रक्षो अभ्यामराय्याः दृण्णाम्ले सर्वा दुर्वाचस्था अस्मन्नाशयामसि यन्नरिन्द्राखानद्यलग्निर्विश्वेदेवामरुतो यत्स्वर्गाः तदस्मभ्यम् सहृदा सत्यधार्मा प्रजापदलनो मतिर्नियच्छात् यो रोच साकभितारजाम् श्रियोौगीर्यैर्वीरतमासमिष्ठा यौपत्येते अप्रादेतौ स भल्विष्णोमगम् परोणम् भूर्वहोदिः यस्येदम् प्रादिश यद्धिरोचते प्रचानदिवितचष्ठे शेभिः पुरा देवस्य धर्मादासो भविष्णो मकन्मरोणम् पूर्वहोदे विष्णार्नकम् प्रावोचम् वेद्यानि यः पार्थिवानि विमामे यो अस्यायदुद्धारम् तदस्थम् विजक्रमाणश्रेधोरोगायः व्रद्विष्णस्तव दैवीर्याणि मृगो न भेमकोचरोगे निष्ठाः परावता जगम्यात्परस्याः यस्य ऋष त्रिषु विक्रमाणेश्वक्षयन्ति भुवानानि विश्वाः गुरुविष्मो विक्राम स्वक्षयायनस्तुधे इदम् विष्णर्विचक्रमे त्रेधा निधेपदा समोढमस्य पां सुरे त्रीणिपदा विचक्रमे विष्णुर्गोपादाभ्यः हितो धर्माणि धारयन् विष्टाः कर्माणि पश्यत यतो व्रतानेपस्पर्शे इन्द्रस्य यज्ञः सखा ृष्ट्रापरामम् पदम् सदा पश्यन्ति सोदयाः विवेदक्षुरातम् दिवो वैष्णवृत वा पृथिव्यामहो विष्णुपुरोरन्तरिक्षात् हस्तौ प्रणस्तबुधर्मसव्यैराप्रयच्छदक्षेणादोदसव्यात् क्रीडैवास्मा अनोऽवस्थाम् हृदय न यस्य परे पुनदे वयम् ताः घृतपदेशक्पदेशो मा पृष्ठोपयज्ञमस्थितवयेष्वदेवी वेदस्वस्त्यद्रो घटस्वस्त्यपरशुर्वेदे पराशुर्नस्वस्ति अविष्कृतो यज्ञया यज्ञकामाश्च देवासो यज्ञमिमम् जोषन्ता अज्ञाविष्णोरहितद्वाम् अहित्वम् बाधो गतस्य मुह्यस्य नाम रमे तमे, तमे, तमे सप्त रत्ना अग्नाविष्णो महिधावप्रियम् वाम् मेघोघृतश्च गुह्याजुषाणौ रमे रमे दुष्पत्या वा वृधानौ प्रदेवाञ्जिह्वा घृतमुच्चरण्यात् स्वार्कम् मे द्यावापृथिवे स्वार्कम् मिथ्याकरयम् स्वार्कम् इन्द्रादिभिर्बहुलाभिर्नाद्ययावच्छेष्टाभिर्मघवाञ्छोरजिन्व जानाद्वेष्टसारः सस्पेष्टयमद्विश्वस्तमुानो जाहातु उपक्रियम् अनिष्ठति युवानमाहुते वृधम् अगन्मतिभ्यादो नमा दीर्घमाय शृणोतु मे सम्माधिञ्जन्तुमनुतः सम् मोषा सम् बृहस्पतेः सम्मायमग्निः सञ्जदप्राजयाजधनेन जीर्घमाय कृणोतु मे अग्ने जातान् प्रणोदा मे समर्थान् प्रत्यजाताञ्जातवेदोऽनुदस्म अधःपदम् ग्रहणस्मये प्रधन्यवो नागसस्थे वयमदेतये स्याम स्मराण्यान् समर्थान् सहसा सहस्रप्रत्यजाताञ्जातवेदोऽनुदस्व इरम् राष्ट्रम् वेत हि सौभागाय विश्वाय न मनो मदन्तु देवाः हिमायास्ते परय्यो मेलवारम् ते गृणामि मात्मा प्रजापि भोन्मोदसोमोः स्वाहान्त्वा प्रजतम् गृणोम्यस्मानन्ते अपि खानम् गृणोमि अच्यो नो मधो सङ्काशे अनेकन्नौ समञ्जनम् अन्तक्रजस्वमा हृदिमलैन्दौ सहसते अमेत्तामनो जातेन दधामि मम वाससा यथा सो मम केवलोनान्यासाम् कीर्तयाश्च न विलङ्घनामि भेषयम् माम् पश्यमभिरोरुदम् परायतो निवर्तनमायदप्रतिनन्दनम् येनानि चक्रासुरेन्द्रम् देवेभ्यस्मति तेनानि कुर्वेत्तामहे यथा देशानि सुप्रिया प्रदेजे सोमामसप्रदेच्छुदसून्यम् प्रदेजे विश्वान् देवान् तान्त्वाच्छा वदामसि अहम् वदामि ने त्वम् सभायामहत्वम् वद ममेरसस्तम् केव लोनान्यासाम् कीर्तयाश्चन निवासे तिलोचनै यदेवानृत्यस्थिरः इयम् हमत्यम् त्वामोषधिर्दर्थे भन्यान यत् दिव्यम् सोऽपर्णम् पायसं गृहन्तमपाम् गर्भम् वृषभमोषधीना अभेपतो वृश्चा तर्पयन्तमानो गोष्ठरा यष्ठाम् स्थावयाति यस्यो रतम् प्रसभो यन्ति सर्वे यस्यो व्रतभोपतिष्ठन्तावाह यस्यो व्रदपृष्ठपतिनियष्टः संसारः स्वन्तमपसे हवामहे आप्रत्यञ्चम् दाशुषे दाश्वम् संसारः स्वन्तम् पृष्ठपतिम् गैष्ठा वायस्पोशंसवस्यम्वसाना यहो वेम सदयनन्दयेना भाव्यच्चपस्तादर्दश्येनोनुचक्षावसानदर्शः परन्विश्वान्यपराजधांसेन्द्रेण सख्या शिखाज गम्यात् श्येनोऽनुचक्षा दिव्यः सोपर्णः सहर्षपाक्षतयो धाः शनोऽनियच्छात्मसु यत्पराभृतमस्माकमस्तु पितृशस्वधावत् सोमा रुद्राविबृहतम् विशोः चैवमेवायामो भविवेश वारेधाम् दूरम् निर्वेदिम्बराजे कृतम् चिदेवमोमग्नमस्मत् सोमाहारुद्रारिवमेषान्यस्मद्विश्वा तनोषो भेषजानी धत्तम् अवस्यतम् मञ्चत इयम् नासत्तनोषो बद्धम् कृतमेनो अस्मत् शिवास्त्वेका शेवास्त्वेकाः सर्वा विभर्षितुमनस्य मानः त्रिस्रोवाचो लिहीतान्तरस्मिन् तासामेकामिकापातानुभोषम् उवाजज्ञथर्नपराजयेथेन पराजिज्ञेकतरश्च नैनयोः इन्द्रश्च भेश्वालतपःस्पृथेताम् त्रेधासहसंवितधैरयेथाम् जनात् विश्वजनेनात्सिन्धुतःपर्याभेदम् दूरात्वामन्यमुद्भेदमेर्ष्याया नाम भेषजम् अग्नेवास्य लहतो दावस्य अलहतः पृथग् एतामेतस्येर्ष्यामुद्राग्निमेव शमया शनेवा निपृथष्णकेया देवा नाम शिश्वसा जुषस्वहव्यमाहोतम् वजाम् दे विदिनः यासो बाहु सम् गुरुस्तु सोमा बहु सोवारी तस्यै या विष्पत्ते रमसि प्रतेजे शास्रस्तुकाभियन्ते देवी विष्णातुभ्यम् राताहवेम् शिवदिम् देवि राधा से चोदयस्व भोम् देवेम् सुकृतम् यत्मनापसमस्मिन् यज्ञे भवाजोहवेमि सा नारयम् विश्ववारम् नियच्छाद्दातु वीरम् च तदाय मुख्यम् देवानामृतस्य पत्ने हव्यानास्य हविषादुषेत शृणोतु यज्ञमो शकेनो अद्य रायस्फोशम् जितुचे दधातो राकामहम् सुहवासुष्ठुते हो वै शृणोतु नः शुभगाबोध दुःमना श्रे व्यक्तपः स्ते रागे सुमादयः सुपेशोयाभिर्ततासिताशुषेवसूनि आभिर्णाद्य सुमना उभागै सहस्रापोषम् या पार्थेवासो या पामप्रते तानो देवेश्व हवाः शर्मा यच्छन्तु व्रज्ञाग्यम् तु देवमज्ञेरिन्द्रान्या आज्ञायश्विनी आरोदयसेवरुणादेशे नातुव्यम् तु देवीर्यलगुर्जनीनाम् यथा वृक्षमसलविश्वाहाहन्तप्रदे एवाहमद्यकेतवानक्षेतुमध्यासमप्रहते पुराणामतोराणाम् विशामवर्जुषीणाम् समेतो विश्वतो भगोन्तहस्तम् कृतम् मम ये अज्ञम् स्वावसु नमाभि प्राशक्तोऽभिजायप्रसन्नाः तथैरिव वा प्रभाले वादयद्भिः प्रदक्षिणम् मरुताम् स्तोमा मृद्ध्याम् वयम् जाये मत्तयायुजावृतमस्माकमंशमुदवाभरे भरे, भरे अस्मभ्यामिन्द्रवरे यः सुखम् गृहधिक्लशत्रूमृन्मृष्ट्याहृज अजे सन्त्वासल्लेखितमजे समुदसंवृथम् अयमृगा यथामथ देवामत्सामित कृतम् पुनः प्रहामदेवाजयति गतमेव स्वघ्ने विजीर्णोति काले यो देव कामोऽधनम् ऋणध्यमित्तम् राजस्वजति स्वथाभिः गोभिष्टरे मामाचिन्दुरे वायवेक्षुधम् पुरोत विश्वे अयम् राजा सुप्रथामा धनान्यष्टासौ वृजाने कृतम् मे हस्ते देहस्ते जयो मे संव्याहेतः भो यद्भूयासमश्वादि धरणम् जयो हिरण्यक्षाः फलवतेऽन्जिवन्नकाङ्क्षेरिणीमिव सम्मा कृतस्य धाराया धनुश्लाने बृहस्पचल् नः पदेवादुपश्चादुतोत्तरस्मादधारादघायोः इन्द्रः पुरस्तानुतमध्यतो नः सघादगेभ्योपरीयः कृणोतु सञ्ज्ञानम् नश्वेभिः सञ्ज्ञानामरभिः सञ्ज्ञानामश्विना योमिहास्मासो नियच्छतम् सञ्जानामहे मनसा सञ्जे कृत्वा मायुष्म हि बहुले दीयेन माघोषा गुः सर्वहुले विनिर्देशुपप्रविन्द्रस्याहन्यागते मम प्रभो यादयज्ञमस्य या बृहस्पते अविरस्ते प्रत्यो हतामश्विना मृत्युमस्मद्धेवानामग्ने विरचालेभिः ्रामदम् माजाहेतम् शरीरम् प्राणपानौजे सयुजा विहस्ताम् शरञ्जेर शरदो वर्धमानाग्निष्ठे गोपाधिपावसिष्ठः आयव्यत्ते अदेहितम् पराजेन अग्न्यश्च दाः निर्णयतरुपस्थात्तदात्मनि मेमं चेमम् प्राणोहासेन्मापानोऽपहायपरागात् सप्तविषभ्यायेन बले तदा मृतयेनम् स्वस्ति चरसेवहन्तो रमे सदम् अयम् चरिम्नस्येवरदृष्टिह वर्धताम् आदेहप्राणम् सोवाम शिवरायक्ष्मम् सुवामि ते आयुर्नाविश्वदायमग्निर्वदेन्यः मोद्वयम् तमः सस्परिरोहन्तो नागमुत्तमम् देवम् देवक्त्रासो नियमकन् मज्योतेरुत्तमम् रचंसामायजामहेयाभ्याम् कर्माणि कुर्वते एते सदा शिराजतो यज्ञम् देवेशो यक्षतः रचंसामय प्राक्षम् हविरोचो य दुर्बलम् एष मानस्मान्माहिंसे द्वेदः जीवते एते पन्था दिवोये वा रेभ्यः सुन्न नावस किरश्चिराजिता कोः परिसम्भृतम् प्रकङ्गपर्वणाविषमियम् गेरुदालीनशत इयम् घेरम् मथो जाता मथुश्चिन्ना सुला मथोः सा विक्रोधश्च भेणद्यथामशकाम्भागे यतो दष्टञ यतोऽधीतम् ततस्ते निःप्रायामसेत् अर्धस्य रतिप्रदंशिनो मशकस्या रसम् विषम् अय्यो भद्राम् गोमुखापि भद्रावृत्तिना कृणोषि तानि त्वम् ब्रह्मणस्पतैषे काभि वसन्नाम रसस्य षर्कोटस्य ने चेरस्योपसर्पदः विषम् जला आश्चादिष्यथो येन रे बागोर्बलामस्ति न शीर्षे नोतमध्यपः अथ किम् पापया भयापुच्छे विहर्षर्धकम् अतञ्जिल्पापि ले कापि गृच्छन्ति सर्वे फलप्रवासशाग्कोटमदसंविषम् यमुभाभ्याम् बहरसि पुच्छेन चास्येन आस्ये च्छथा शावदो मे विचक्षुभे यज्ञाचमानस्य तरतो जना यदात्मने तन्वो मे विलिष्टम् सरस्वतीकृताप्रणद्धृतेन सत्सक्षारन्ति वे मरुत्पादयवित्रपुत्रा सोऽप्यागेव तम् धृतानि उभे इदश्चोभे अस्य राजत उभेयते बुभे अस्य पुष्यतः इन्द्रावरुणा श्रुतमामिमम् धृतम् सोमम् विवतम् मध्यम् धृतौ रथौ युवो रथोऽध्वनो देववेदये प्रदेशमुपायादुपीतये इन्द्रावरुणा मधो मत्तमस्य मृष्टः सोमस्य विषाणा इदम् वामन्धः परे शक्तमासध्यास्मिम्बर्हिषे मादयेधा यो न शपादशपदश्चपतो यश्च नश्यपात् वृक्ष एव विद्युदाहता मूलादलोऽशुष्यतो वोर्जम् विभ्रद्वसुपनिः ग्रहाणैमेषु मना वन्दमानोरमद्धम् माभेदमत् इमे गृहामायोभुमवोर्चः सन्तः पयः सन्तः कोर्णा वामेन तिष्ठन्तस्तेनोऽपायातः एषा मध्येति प्रवसन्येषोऽसौ मनलो मो गृहानवाक्वयामे तेनो जानन्पायातः उपराहूता भूरि यस्वादुसम् मुदः प्रक्षुद्ध्या तस्याष्टगृहामास्मद्येभेदन उपाहोता ह्यगाममुपाहोता अजालयाः अथो अन्नस्य केला न उपाहोता गृहेशो नः सोन्नतावन्दः सुभगायिरावन्तोऽ हसा मुदाः अतृष्या इहे अस्मानो गात्रविश्वा रूपाणि पुष्यत अयेष्यामि भद्रेण सह भूयान्तो भवतामया यदज्ञेतपसा तपमुपतप्यामहेतपाः प्रियाश्रुतर्च भूयास्मायुष्मन्तः सुमेधसाः अज्ञेतपस्तप्यामहमुपतप्यामहे तपाः सुराने सन्वन्तो वयमायस्पन्तः सु मेधसाः अयमग्नः सत्पद्वृद्धवृष्टार्थ पत्येन जनयत् पुरोहेतः नाभाः पृथिव्यान्नेतोतविद्यत तत्फलङ्ग्रहथाय धन्यवाह प्रतनादितम् तहा मानमग्निमुक्तेरः वामः परमाच्छतस्थात् शरःपर्ष तदे दुर्गाणि विस्वाक्षामद्देवोऽपि दुरितान्यग्निः इदत्कृष्णश्च गुणेननिष्पतन्नपीपतत् आपोः मातस्मात् सर्वस्माद्दुरितात्पान्तुम् हसः इदै यत्कृष्णशगुणेरमामृक्षन् निर्वचयते मुखेन अग्निर्मातस्मादेन शोगार्हवत्यः प्रमुञ्चतु फलो हि त्वमपामार्गरुहेध सर्वान्मच्छवधावधिवलेयोर्गस्तुलैयच्छमानय्यर्पाचेरिमपापया या प्रयातर्ति स्वतो मुखा पा मार्गाप मृज्महे श्रावनखिना बन्दे न यत्सहासिम व्यक्तया वयम् सर्वम् तदपृद्महे यद्यन्तरिक्ष यदि वासा श्र यदि वृक्षेषु यदि गोलाक्लेषु यदश्रावन् पशव उद्यमानम् तद्ब्राह्माणम् पुनरस्मामुपैतो पुनरर्मैत्रिन्द्रियम् पुनरात्मा द्रवेरम् ब्राह्मणम् च पुनरलग्नयोधिथास्थामकल्पयन्तामिहैव सरस्वति व्रजेषो दे दिर्गेषु दे विधामासु जुषस्वहव्यमाहोदम् भुजाम् दे विरगास्वनः इदम् ते अव्यम् हृतवत् सरस्वतीदम् वितॄणाम् आयते। इमाने तौदिता शन्तामानितेभिर्वयम् मधोमन्तः स्याम शिवा नः शन्तामा भव सुगृडेका सरस्वती आदे योमसन्दृषाः शन्नो वाचो वादशन्नस्तवदशौर्याः अहानिशम्भावन्तु नः शम् रात्रे प्रसेधेयता समुषान्युक्ष क्तिम् चासो मनासाय च वाचायज्ञेयजुहोत् हविषायजोषा तन्वर्त्यणा निर्वेदः संविदानापुरा सत्यासाहो जिह्मन्त्वस्य यातुधानानिर्वेदरातुरक्षस्य अस्य घ्नत्वेदेन दे सत्यम् इन्द्रयशिता देवाहाज्यमस्यमघ्नम् तुमातत्सम्पादियदासौ जुहोति अधिराधिराजो श्येनो सम्पादिनाहाविव आर्ज्यम् पृतन्यतो हता यो नः कश्चाभ्यन्ते अपान्तौ तौभौ बाहोऽपे नह्याम्यास्यम् अग्ने देवस्य मन्युनाथेन देवधिषम् हविः अपानश्यामि ते बाहोऽपे नह्याम्यास्यम् मञ्जुनाथेन देवधिजम् हविः मरित्वाग्ने पुरम् वयम् विप्रम् सहस्य धीमहि रजद्वर्णम् नवे देवे हन्तारम् भुरावाद बुद्धिस्थता वा पश्यतेन्द्रस्य भागमृद्वियम् यदि श्रादम् श्रातम् अविरोष्मिन्दप्रियाय रामसूध्वनो विमध्यम् परेपादते निधिभिः सकाय कुलपादौराजपतिञ्जरङ्गम् श्रातम् मन्यवोध निःश्रातमग्नो सुतम् मन्येतदृतम् नवीयः माध्यन्दिरस्य सुवर्णस्य तद्धिन्द्रवज्रम् पुरोनज्योषाणः समिद्धो अग्र्यवेषणा रथेरिवस्तप्तो धर्मो दुःख्य देवामिषे मधु वयम् हि वाम् पुरुदमाः सोऽश्विनाः वा महेशधामादेशु कारवाः समिद्धो अग्रिरश्विना तप्तो वाम् धर्मागतम् दुह्यन्ते नूनम् व्रेषणेहसेन बोधसामतन्त्रिमेधसाः स्वाहा <t> ुचिर्देवेशो <च्छुजद्द्धै> यज्ञाय अश्विनाष्टमासोदेवनाः तमविश्वे अमृता सोदुषा सर्वस्य प्रत्यास्नारिहन्ति यतश्रिया स्वाहोतम् घृतम् पयोऽयम् सवामश्विना भागागदम् माध्वे धर्ताराविगतस्य <t> लद्पदे <effective> तप्तम् घर्मम् प्रेमतम् लोचने शिवः तप्तो वाङ्घर्मो नक्षतु स्मो वा मध्वर्यश्च रदुपयस्वान् मधो द्रुग्धस्याश्विनातनाया वेदम् पातम् वयसमुश्रियायाः उपक्रवापयस गोधुकोशमाधर्मे शिक्षपयमुस्त्रियाः विना कमक्षत्सवितावरेण्यो न प्रयाण वक्वये सुधान् धेनुमेताम् सहस्तो गोधुगुतदोहदेनाम् श्रेष्ठम् स्वंसमितासा विषन्नो भेदधर्मस्तदोष प्रमोचत् किम् कन्वदेव सुपज्जीवसो नाम् वत्समिच्छन्ति मनसा न्यागन् लुहामश्विभ्याम् पयोभ्येयम् तावद्धताम् महाते सौभागाय तिष्ठातमो नादेशर्तुराण इमन्ना यज्ञमुपायाहि विद्वान् विश्वाग्नेभीजो यदत्रो यता माभागा भोजनानि अग्ने शर्धा महादेशौ भागाय तवद्युम्नान्युत्तमाने सन्तो सञ्जास्पत्यम् तुल्यममाग्रे नश्वशत्रो यतामहतिष्ठा महांसे भोयपाशाद्भगवतेः भोयाथा वयम् भगवन्तः स्याम अद्धि तृढमग्नेश्वविव श्रद्धमोदकमाचरन्ति अपशिताम् लोहीनीनाम् कृष्णामादेशुश्रुम मुनेर्देवस्य मोदयेन सर्वाः विद्यापिताहम् विध्याम्यासाम् रथ्या माम् विध्याम् इदमध्य माम् इदम् च्यामासामाष्टेन व्यस्तुकामिव वाष्टेनाहम् वचिष्यामामेवदम् अथोयोमन्यष्टे मते समोदे शमयामसे व्रते रत्वाम् रतपते समग्र विश्वाः कथम् त्वा वयम् जातवेदः समिद्धम् प्रजावन्त उपासदे मम सर्वे प्रजावदे सोऽयव च ऋषन्तेः शुद्धापः सुप्रपाहणे विवन्देः मा वचेन एषतमादशम् रुद्रस्य हेतर्भे नक्तो पदज्ञाश्चमादयः संवेदाविश्वनाङ्गेः उपामा देवेर्देवेऽभि इमङ्गोष्टमिदम् सतोऽभृदे नास्मान् समुक्षत आ शुश्रसः शुस्रसा स देवभ्या सत्तराः सेहार रसतरालवणाभिर्ले देयसीः याग्रैव्याः पचितोऽथो यावोपपक्ष्याः यक्केका सा प्रसरणादेतमपातिष्ठते निरास्तम् सर्वम् जायान्यः कश्च कगुधिश्रितः पक्षे जायान्यः पतति सावेशति पूरुषम् रक्षेदस्य भेषगमुभयोः सुक्षादस्य प्रसंहलमानो यस्य कृमो हविर्गृहे दृहत्केव कलुशे सोमामिन्द्रपुत्राशोरसमरेसूनाम् माध्यन्दिरे समनागस्वरयिष्ठानो रयिमस्मासोधेः सान्तमना इदम् हरिर्मरोतस्तजोतिष्ठनाम् अस्माको दैशादशः यो नो मर्तो मरुतो दुर्हरायु स्थिरशिष्टानेव स भोजिघां सति गृहात्पाशाम् प्रदेमुञ्चताम् सदपिष्ठेन तपसाहन्तनाथम् सम्वत्सरेणा मरुदस्वर्गा वृक्षया सगानामानुशासः ते अस्मत्पाशान् क्रमुन्द्र न सत्सान्तपनामत्सरमादयिष्णवाः विदेहे मुञ्जामिरसनाम् वियाक्षम् विनियोजनम् इहैव त्वमजस्वयेऽध्यग्ने अस्मैच्छक्राणि धारयन् प्रमज्ञे युवद्भ्य ब्रह्मणा दैव्येन वेलिह्या आस्मद्भ्यम् द्रमेणेह भद्रम् प्रेमम् वोचोह क्ते देवाकण् भारथे दे यममावास्ये सम्वसम् दोमहित्वा तेदानो नो यज्ञम् वे गृहे विश्ववारे दयिन्मो भे सुभगे सुवीरम् अहमेवास्मवास्या आमा वा सन्त सुभृदोमयीमे मये देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे आगन् रात्रे सङ्गमने वसो न मोर्जम् पुष्टम् वस्वा हविषा विधयमोर्जन्तु हा नापयसा नागन् वास्येन विश्वाः रूपाणि परे भोर्जान यत्कामास्येजो होमस्थन्नास्तु पूर्ण स्यामापदयोदयीणाम् पूर्णा पश्चादुतपूर्णा पुरस्तादुन्मध्यतः पौर्णमासेति गाय तस्याम् देवैः सम्वदम् तोमहित्ता नागस्य पृष्ठे समिषामादेमशाभम् वाजिनम् वयम् पौर्णमासय्याजामहे सनागतात्वक्षेदाम् वयमनोपदस्पते प्रजापतेनत्वदेतान्यो विश्वा रूपाणि परे भोर्जान यत्कामास्तेजो हुमस्तन्मास्तुमयम् श्यामपदोना पौर्णमासे प्रथमायज्ञयासेदन्हाम्रात्रे नाम रि सर्वरेषु एत्वा यज्ञेर्यज्ञे अर्थयम् जमेतेनाके सुकृतः प्रविष्ठाः पूर्वापरम् चारतो माय यैतो शिशो क्रीडन्तो दो परे यातोर्नवम् विश्वान्या भवाना विचष्टारतो रम्य विदध जाय से नवाः नवा नवो भवसिदाय मानानुनाम् केदृशसा मे शक्रम् सोमस्याम् सोयुधाम् पदेनो नाममासे अनो नन्दरशमाश्रिप्रजया च धनेन च रषोऽसि दर्शतोऽसि समग्रासि समन्तः समग्रः समन्तो भूया सङ्गोपिनश्मै स्मान् वयम् विश्वस्तस्य त्वम् प्राणेनाप्यायस्व आ वयम् प्याशिषेमहि गोभिरश्वेप्रजया पशुभिर्गृहेर्धनेन यम् देवाहंसुमाप्यायुयन्ति यमक्षेदमक्षिता भक्षयन्ते तेनास्मानिन्द्रावरो नो बृहस्पतिवायम् त्वभुवानस्य गोपाः अभ्यश्चतसीम् गम्यमाजिमस्मासो भद्रा द्रवेणानि दत्ता इमै यज्ञम् नारतदेवता नो हृदस्य धारामधो मत्पवन्ता मयि अग्रे अग्निम् मयि प्रजाम् मय्यायधा मिस्वाहा मयि यज्ञम् यथैवाग्ने अधेधादया रयिम् मात्वानि क्रह्र्वचित्तानि कारिणः सक्रेणात्मे सुयमामस्त्वभ्यामुपसत्ता वर्धताम् ते अनिष्टुतः अन्वग्निरुषसामग्रामख्यदन्महानि कृथामो जातवे वृषसो मनो रश्मेन प्रद्यावाह पृथिवीवेश प्रत्यज्ञमग्रामक्षप्रत्यहानिप्रथमो जातवेदाः प्रतिशोर्यस्य पुरुधा च रश्मीन् प्रतिद्यावाः पृथिवी आततान घृतम् ते अग्ने दिव्ये रथस्थे घृते नत्वाम् मनो रत्यामिते देवे दे दे दे दे दे। ्या आवाहन्तु घृतम् तुभ्यम् द्वृताम् गावोऽग्ने अप्सुते राजन्वरुणग्रहो हेरन्ययो मिथः हतो धृतौ रातो राजा सर्वा धामानि मुञ्चतो धाम् न धाम् नो राजन्नितो वरुणमुञ्चनः यदा व रुणमुञ्जनः उदुस्तमम् वरुणपाशमस्मदबाधमम् विमध्यमम् स्वाखाय अथा वयमादित्यौ रते ध नागसोऽतये स्याम रास्तत्पाशान्वरुणमुञ्च सर्वाण्यमुत्तमाधमवा ष्वप्यम् दुरितन्निश्वास्मरसा गच्छेम सुकृतस्य लोकम् अनाथश्चो जातवेदालज्यो विदारज्ञेक्षत्रभृद्दे दहेह विश्वामेवा प्रमञ्जन्मानो जेभ्य शिवाभिरत्यपरे वाहि नोदयम् इन्द्रक्षत्रमभिवामोदोजा यथा वृषभदर्शनीना अपानुदाचनामृत्थायन्ता मुरुन् देवेभ्यकृणानुलोकम् मृगा न भेमगोचरागे निष्ठाः परावता जागम्यात्परस्याः सगन् संसाय पविन्द्रदिग्मम् विषद्रोन्ताधे वि मृधानुदस्व चमोषवाचिनम् देवजोतंसहोवानन्दरतारम् रथानाम् अरिष्टनेमिम् मृदनाजिमाशुम् स्वस्त एतार्क्ष्यामिहा होवेम कातारमिन्द्रमवितारमिन्द्रम् हवे हवे सुहवंशो रमिन्द्रम् हुवेदिषर्गम् बोरहोदमिन्दम् स्वस्तिर इन्द्रो मघवान् कृणोतु यो रग्नो रुद्रो विश्वाभवनानजा तस्मै रुद्राय नमो अस्मर्दयेत्यदे नस्य शर्वासे विष विषमा वृक्था विषमिद्वा वृक्था अहेमेवाभ्यते हितम् जाहि अपो दिव्याजायुषं वस रसमा वृक्ष्महे पयस्वानग्नागमन्तम् आसंसृजवर्चसा संमाग्श्च सादृशसम्भजया समायोषा विद्युर्मे अस्य देवा इन्द्रो विद्यात् सहर्षेपे विदधापवाहतापद्यम् च अमलम् च यत् यच्चाभि दुर्द्रोहायतै यच्च शेपे अभिरूणम् वेधोऽस्येधिशेयसमिदसि समेऽधिशेय पेयोसितेजो मयेधे अपे वृश्च पुराणवद्भृतदेव पुष्पितम् ओजो दास्यस्य दम्भय वयम् तदस्य सम्भृदम्बस्मिन्द्रेण विभजामहे वायामिभय शिभ्रम्बो अपायाते श्रेसुया अवस्थस्य तदेव दशाम् पुरस्य नितोदिनाः यदा तमवतत्त नियदत्ततन्नितत्त नो इन्द्रः सत्रा मास्तवा अवोभि सुमृणे कोण विश्ववेदाः बाधताञ्जयशाभयन्न कृणोतु सुवेर्यस्य स्वभाव इन्द्रो अस्मधानाचिद्वेदः स न वदव्यो योऽतो तस्य वयम् सो मतो यज्ञ यस्यापि भद्रेसो मनासे स्याम इन्द्रेण मन्यना वयमभिश्च्याम कृतन्यतः वृत्राण्यप्रहति ध्रुवम् ध्रुवेणविचामसोमम् नयामसे नैन्द्रहक्येवस्कर कुलस्य श्यावो मेधलो गृहौ यामेव पेदतुः शोचनप्रशोचनावस्योच्छोचनो हृदः अहमेनामुदयधिष्ठिबङ्गावोसाम् प्रसदाविवरागेव भूजन्त उतवन्तौ कृ आतो नितो दिनो नितोदिनावथोऽ सन्तोदिनावृथ अपेरक्ष्याम्यस्य मे भ्राम्यैलस्ते पुमान् च पारसा दङ्गावत्सदा ने पब्दद्दसादिम्बयाः आस्थाने पर्वदास्थस्थाम्नेवम् यत्त्वा प्रयाति यज्ञे अस्मिन्होदश्चित्त्वम् न वृणे ध्रुवरायो ध्रुवमुदा चाविष्ठप्रज्ञातान्यज्ञमुपायाहि सोमम् सयन्द्रतोमनासाने शोभ्यस्तम् कोलिभिर्हरिवान् सां स्व्रह्मणा देवहेद यदस्ति सन् देवानाम् सुमातुविक्रियाणाम्बाह सो देवदेवाम् स्थान् प्रेरयस्ते अग्ने सदस्थे क्षिवाम् दत्तपिमान् स्वामधोन्यस्मे धत्तवसमोपसो निो देवासनागर्मया जग्मसमाने मानुषानाः वह मानभरमानास्वापसो निवसम् धर्मम् दिवमालो हतान यज्ञायज्ञम् गच्छ यज्ञपादिम् गच्छ स्वाय्योमिम् गच्छ स्वाहा एष ते यज्ञो यज्ञपदे सहसोऽनुक्तवाकः सुरेर्यस्वाहाभ्यो वषडभूतेभ्यः दे देवाघातुमिदो घातुम् वित्त्वा गातुमीत मनसस्पत इमन्नोहादिविदेवेषो यज्ञम् स्वाहादिभिः स्वाहा कृशल्याम् स्वाहान्तरिक्षे स्वाहा वापेधाम् स्वाहा स्वम्बर्हि रक्तम् हविशाते इन्द्रेण भुजो ना नासं मरुद्भिः सन् देवे विश्वदेवेऽभिरक्तमिन्द्रम् रक्षतु हविः स्वाहा परेश्रुमेः परेधेः वेदिम्मागामिम् होदशदानम् वरेदम् हिरण्डम् निष्कायेतेजामानस्य लोके पर्यावर्ते दुः स्वप्न्यात्पास्वप्न्यात् भोग्याः ब्रह्माहमन्तारम् क्रण्या स्वप्नमुखाश्रुचाः यत्स्वत्ययान्यमज्जमिल प्रातराधिगम्यते सर्वम् तदस्तु मे शिवम् न निरदृश्यते शिवा नमस्कृत्य जावा पृथिवेभ्यामन्तरिक्षाय मृत्यमे मे क्षाम्योऽग्रस्तिष्ठन्मा हिंससुरेश्वराः को अस्या नो द्रोहो योऽवश्यायच्छन् को यज्ञकामक्कुपूर्त्ये कामक्को देवेषु भनुते दे दीर्घमायोः कात्पुष्ट्यम् धेन मलोनेन दत्तामथेषु सुखान्नित्यावत्साहस्पदेन सख्यम् जोषानो यथा वशन् सन्नः कल्पयाति अवङ्गामण्भौरोषे या तृणालो देव्यम्बजाः प्रणेतेरभ्यावर्तस्य अविष्टेभिः सखेभः सह यदस्भ्यति च कर्म किम् चेदग्नमुपा विपचले जातवेदः तदपा हि पन्न प्रचेदः शुभे सुखेभ्योरत्वमस्तु नः अपरदिवस्थारयन्ति सप्तसूर्यस्य रश्म्याः आपः समुद्रिया यो नस्तायत्यो न आविश्व विद्वानर नो बालो अग्ने प्रदेच्चेत्करणे लेतान्मेषामग्ने वा स्तु भून्मोऽपत्यम् को न सुप्ताञ्जाग्रतो वाभिलासात् तिष्ठातो वा जलतो जातवेदः वयेष्वानवेन सयुजा सजोषास्तान्प्रदे च निर्दहजाचवेदः इदमुग्राय बद्धवेदमो यो अक्षेषोदनो वशे घृतेन कलिम् चक्षा विशनामृडादेशे घृतमक्षराभ्या महत्त्वमज्ञेपांसोऽनक्षेभ्यस्य गाता अपस्य यथाभागम् हव्यदादिञ्जशानामदन्ति देव उभयानि हव्या अक्षरशस्तथा मादम् वदन्ति हविर्थानावृतारा सूर्यम् च कामे हस्तौ संसृजन्तघृतेन समज्जम् मे कृपम्रम्भयन्तु आदिनवम्रादिदे कृतेनास्मामभिक्षण लक्ष्यमीवाशन्याधेयो अस्मान् प्रति योडो यो नोऽद्युवेधनमिदम् यो चकारयो अक्षाणाम् ग्रहानम् शेषाणम् च स नो देवो हरिनिरञ्जोषाणोऽगम् सर्वेभिः स्वधा मादम् मदेम सम्भासमयि देवो नामधेयमुग्रम् पश्याष्टभृतोख्या इन्दो हविषाविधेम वयम् श्यामपदयोरयीनाम् देवान्यन्नाशितो हुवे ब्रह्म तर्योषिम अक्षान्यद्ब्रो नालभे ते नो वृणन्ते दुषे दाशुषे हतो वृत्रान्यप्रति उभाहिवृत्र हन्तमा जायन् स्वा आरग्र एवयावातस्तर्भवनानि विश्वा वृदर्षणेण वज्रबाहो वर्गिन्द्रम् नृत्रहणाहुवेहम् उपत्तादेवार्द्रभेच्छ बृहस्पतेः इन्द्रगेर्भर्नावेशयजमानाय संभाते इन्द्रस्य मुक्षिराशि सोमधान आत्मा देवाना हुतमानुषाणाम् इह प्रजायास्ताशुया अन्यत्रे हास्ते रमन्ता शुम्भा निवाः सुन्ते शुम्भे महिव्रते आपः सप्तशवर्धे स्थाना मुन्तम् भासः मुञ्जन्तो माशपध्या दृष्टा वन्दनोऽ यथा कृतदृष्टा सोमुष्मैशेऽप्यावते दृष्टा से दृष्टिका विशाकेशादज्ञासे परे वरक्ता यथा सस्तुशहस्यावशेव आचेत वक्षणाभ्यादे संहृतायात्तते आ ते मुखस्य शङ्काशात्सर्वम् देवच्छाददे प्रेतोऽयम् तु व्याध्यप्रामुध्याप्रोषस्तयः अग्निरक्षस्विनेरहन्तु सोमोऽहन्तु दुरस्यतेः प्रपदेतपापि लक्ष्मिणश्चेतप्रामुदत्पदमयस्मयेनाङ्केन द्विषदेपासा जामसे यामालक्ष्मीस्पदयालोरजोट्काभितस्कन्दवन्दनेव वृक्षम् अन्यत्रा स्पर्शा वितस्तामितोधा हिरण्यः स्तोऽपसो नोनः एकशतम् लक्ष्म्यामत्यस्य साकम् धन्वा जनशोधी जाताः तासाम् पामिष्ठानितभ्रहिन्न शिवास्मभ्यम् जातवेदो नियक्ष एता चेनाव्याकारम् खिलेदाविष्ठेदायव नवन्ताम् पुण्या पुन्या पापे स्थाने रसम् नमा लोरायच्चवानाय नोदानाय सृष्टभे नमः श्वेताय गोर्वकामकृत्वाद्यु लोभयद्युलभ्य प्रेमम् मण्डोगामभ्ये मन्देरिन्दहरे्याहि मयोरमभिः मा केचिद्भिय मन्विन्न पाजिनोदिधन्वेवयामि सोमस्ता राजामृते नानोऽवस्था पुरोर्वरे यो मनो नस्ते पुनोजयम् कन्द्वा नो दे